ेषोदयसूर्यः भेषास्मादग्निश्चन्द्रश्च मृत्यर्धावति पञ्चमगिते शैषानन्दस्य मे माकुंसा भवति युभा स्यात् साधुयुवाध्यायकः आजष्ठो दशिष्ठो वरिष्ठः तस्येदम् पृथिवेदारिप्रसयोर्णा स्यात् सरेको मानुष आनन्दः के लेखतदम् मानुष आनन्दाः सरेको मनुष्यकम् सर्वानामानन्दः श्रोत्रियस्य राजा कामः तस्या के लेदम् मनुष्यकम् सर्वानामानन्दाः देवगन्धर्वानामानन्दाः स्वगेकः पितृणाञ्जरलोकलोकानामानन्दः श्रोत्रियश्च जागामः तस्या हे एतम् पितृणाञ्जरलोकलोकानामानन्दाः स्वरेक आजानजानाम् देवानामानन्दः श्रोत्रियश्च जागामः तस्या हे एतमाजानजानाम् देवानामानन्दाः सरेकः कर्मदेवानाम् देवानामानन्दः हे कर्मणा देवानपि यन्ते श्रोत्रेश्वरागामः तस्य हे लेखनम् कर्मदेवानाम् देवानामानन्दाः हरे गो देवानामानन्दः श्रोत्रियश्वरागामः तस्य हे लेतरम् देवानामानन्दाः हरेक इन्द्रस्यानन्दः श्रोत्रेश्वरागामः तस्या हे लेतदमिन्द्रस्यानन्दाः स्वरेको बृहस्पतेरानन्दः श्रोत्रियश्रिरागामः तस्या हे एनम् बृहस्पतेरानन्दाःखः प्रजापतेरानन्दः स्वोत्रियश्रिरागामः तस्या हेतनम् प्रजापतेरानन्दाः स्वरेको ब्रह्मणानन्दः श्रोत्रियश्रिरागामः तस्या स यष्टायम् पुरुषे यष्टादावादित्ये सरेकः अस्माल्लोकात् प्रेत्य एतमन्नमयमाहात्मानमपथम् क्रामते एतम् प्राणमयमात्मानम् पदम् क्रामदे एतम् मनोमयमाहात्मानमुपथम् क्रामदे एतम् विज्ञानमयमात्मानमुसम् क्रामदे एतमानन्दमयमाहात्मानमुपथम् क्रामते तदप्येत श्लोको भवते यतो वाचो निवर्तन्ते अप्राप्यमनसादः आनन्दम् ब्रह्मण विद्वान् कुतश्च नयति एतकम्हपातपति किमहकम् साधुना करवम् किमहम् पापमगरवमिति स यदेवम् विद्वानेते आत्मानज्ञस्पृणुते यदेवम् वेद यद्युपनिषते स न भवतु सह नीर्यङ्करवावहे तेजस्मिनाविद्विषावहेः ओम् शान्तिः भृगर्वैवारुणिः वरुणम् वितरमुदृतार अभीजभगवद्ब्रह्मेजे तस्मादेषाच अन्नम् प्राणम् चक्षस्रोत्रम् मनोवाचमिजे ककुम्भोवाचा यतो वायवानि भूतानि जायन्ते ये जातानि जीवन्ते यत् प्रयन्तभिसंविशन्ति तद्विधिज्ञातस्वब्रह्मेति सर्वोदप्यदा सर्वम् ब्रह्मे दिव्यजानात् अन्नार्थे वखल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ते अन्नम् प्रयन्तभि संविशन्ति तद्भिज्ञाय ेव वरुणम् पितरमपसहार अधेशपक ब्रह्मेते रम्भोवाच तपसा ब्रह्मभिजिज्ञासस्व तपो ब्रह्मेते सतपोदप्यता सतपस्तत्त्वा प्राणा ब्रह्मेदप्यजाना प्राणाभ्येवखल्मिमानिभूता निजायन्ते प्राणेन जाता निदेवन्ते प्राणम् प्रयन्तभिसंविधन्ते तद्विज्ञाय पुनरेव वर्णम् पितर उपसदाय अधीको ब्रह्मेते सकुम्भोवाच तपथा ब्रह्म विजिज्ञादस्व तपो ब्रह्मेते तदपोदभ्यता ततपस्तत्त्वा मनोब्रह्मे दभ्यजानान् मनसाक्येवमानि भूतानुजायन्ते मनसा जातानि जीवन्ते मनःप्रयन्तमिदम् विसन्ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपसतार अधेकभगवो ब्रह्मेते अगम्भोवाच तपसा ब्रह्म विजिज्ञादस्व तपो ब्रह्मेते सतपोदप्यता तपस्तत्त्वा विज्ञानम् ब्रह्मे दिव्यजानात् निर्ज्ञानाद्येवल्मिमानिभूता निजायन्ते विज्ञाने न जाता न जीवन्ते विज्ञानम् प्रयम् पुनरेकवरणम् पिनरमुदसार अधेकभगव ब्रह्मेति रंहावाच अपसा ब्रह्म विजिज्ञातस्व ब्रह्मेति सर्वत्वा आनन्दाब्रह्मेनात् आनन्दाभ्येव जायन्ते आनन्देन जातानि जीवन्ते आनन्दम् प्रयन्तपि संविशन्ते अरे या भार्गवेणे विद्या परमे व्यामन्प्रतिष्ठिता हरे एवम् वेदप्रतिष्ठते अन्नवाणन्नादो भवते महान् भवति प्रजया मदुभिब्रह्म महान् केत्या अन्ननिन्द्यात् तद्वदम् प्राणो वान्नम् शरीरमन्नादम् प्राणे शरीरम् तदेलम् नमन्ने प्रतिष्ठितम् सर्वेलम् न मे प्रतिष्ठितम् वेलप्रतिष्ठते अन्नवानम् नादो भवते महान् भवति प्रदया ब्रह्म वर्तते महान् एपरिचक्षेत तद्वदम् आगो वा अन्नम् ज्योतिरन्नादम् असज्योतिप्रतिष्ठितम् ज्योतिश्यावप्रतिष्ठिता स एतदम् न मन्ने प्रतिक्षितम् स एतदम् न मन्ने महान प्रतिष्ठितम् महान् भवति प्रजया पृथत् महान् वेप्या अन्नम् बहु कुर्वे च तद्भम् पृथिवेव अन्नम् आकाशोऽहन्नादः पृथिव्यामाकाशप्रदक्षितः ी प्रतिष्ठिता न मन्ये प्रतिष्ठितम् न मे प्रतिष्ठितम् वेदप्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रदया पृथुपरि ब्रह्मवर्जेन महान् कीर्त्या न कञ्चनवसदौ प्रत्याजक्षेदाम् तस्मादया गया च विधया मत्पन्नम् ब्राप्रया न्नमित्यालक्षते एतद्वै मुखतोऽन्नगुम् राधम् अस्मान्नम् राध्यते एतद्वा मध्यतोऽन्नगुम् राधाम् मध्यतोऽस्मान्नगुम् राध्यते एतद्वा अन्ततोऽन्नगुम् राधम् अन्ततोऽस्मान्नगुम् राध्यते युगेवम् वेदा क्षेमविधिवाची योगक्षेमविधिनापानयोः कर्मेदिहस्तयाः नतिरिति पादयाः विवक्तिरितिपायौ इति मानुषेः समाज्ञाः अथ देवेः तृप्तिरिति वृष्टौ बलमिति विद्यते यश इति वशत ज्योतिरिति नक्षत्रेषु प्रजातिनमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासेत प्रतिष्ठावान् भवति तन्महः महान् भवति अन्वन इत्युपासेत मानवान् भवति तन्नम इत्युपासेत नम्यन्तेऽस्मै कामाः तद्ब्रह्मेत्युपासेत ब्रह्मवान् भवति तद्ब्रह्मण परिमर इत्युपासीत पर्येण म्रियन्तेऽङ्करस्य पत्राः पर्ये प्रियाभ्याद्रव्याः तस्यायम् अष्टाधारवादित्ये स एकः स एवंवित् अस्माल्लोकात् प्रेत्या एतमन्वमयमहात्मानवसम् क्रम्य एतम् प्राणमयमाहात्मानवपथम् क्रम्य एतम् मनोमयमहात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमहात्मानपधम् क्रम्य एतमानन्दमयमहात्मानमुपथम् क्रम्य लोकान् कामान् निकामरोप्य सञ्जरन् एतत्सामकार्यन्नास्ते हा गोहा गोहा भो अहमन्न महमन्न भु। महमन्नम् अहमन्नादो वोहमन्नादो ो ककृतः प्रकृतः ग्यश्लो भगृद अहमस्मि समचारिता पूर्वम् देवेभ्य अमृतस्य मन्न मदन्दमा अहम् विश्वम् भुवनमभ्यभवाम् सुवर्णज्योतेः दे। हे देवम् वेद इत्युपनिषत् सह नाभवतो सह नौ भुनक्तो सह वीर्यम् करवामहे तेजस्वि नाभते तुमस्तु मामिद्विजामहे शान्तिः शान्तिः अम्भस्य बाले भुवनस्य मध्ये नागस्य वृष्टे महतो महीरा शुक्रेण ज्योतेगम् विलमन प्रविष्ट प्रजापतिश्चलदिगर्भे अन्तः यस्मिन् निरगम् सञ्चमयै सर्वै यस्मिन् देवादिविश्वे निषेदो दे तदेव भूतम् तदभव्यमाहितन्तरक्षरे परमेऽप्यन् एना वदङ्खम् च दिवम् मही च करेनादित्यस्तपदितेजसाभ्याजसा च मुद्रे कवयोभयम् धियरक्षरे परमे पर प्रजाः श्च वेदभूतानि चराचराणि अतः परन्नान्यपदात् परयन्महतो महान्तम् यदेकमव्यक्तमनन्तरूपम् विश्वम् पुरानन्तमतः परस्पाद तदेवत्तन्त सत्यमाहुस्तदेव ब्रह्मपरमम् कवीनाम् म् बहुधा रातम् जायमानम् विश्वम् विभर्ति पवनश्च नाभिः तदेवाज्ञद्बायस्तत्सो यत्त्व चन्द्रमा तदेव शुक्रमोदम् तद्ब्रह्मस्वप्रजापरि सर्वे निवेदानि किले पुरुषादधिमहोर्ताष्ठाष्टाहोराष्टार्वजः अर्धमाता मातार्दवः संवत्सरश्च कर्पन्ताम् क्रमसो साप्रदुखे उभे गिमे अन्धे क्षमसोऽशुभः नैनपोर्धन्नमध्ये परिच्रभदेकश्च नृशे वृक्षनिरूपमस्य नुलमतास्ते भवन्ति अर्भ्यस्तम्भोदाभिरण्यगर्भ इत्यर्थ <Sess> एत हि देव प्रतिशोदर्वा पूर्वोभिजातश्च मुकर्धे अन्तः स विराजमानस्य जनिष्यमानप्रत्यम्मुखास्पक्षति विश्वतोमुखः विश्वदश्च कृतोमुखो विश्वदोहात विश्वदस्पादम्बाहभ्या नवजलम् वदत्वेभ्या वा पृथिवी जनयम् देव एकः मेनस्तत्पश्चन् विश्वाभुवनानि विद्वार्य त्र विश्वम् भवत्येकनीलम् यस्मिन् सन्त्यभिषेकम् अमुतन्म विद्वान् तम् सर्वो नामनिहितम् गुहादो श्रीपदानि गुहाधियत्तद्वैत सराबन्धस्य निताय विश्वाः यत्र देव अमृतमानसाना स्त्रीये धामान्यभेरयन्त परिद्यावाेयन्ति सद्यः परिलोकान् परिशुभः त्वम् विदम्पश्यवद्वजातो परेत्यलोकान् परेत्य सर्वाः च प्रजापदप्रदमजादस्यात्मनात्मानविलम्बभो वा सरसस्पतिमद्वदम् भियमिन्दस्य काम्यम् सरिम् मेधामयाभिम् बुद्धे मसोगश्चनम् च दिशोषा मानाहिकम् पुरुषम् जगद् अविर्भग्रागहि श्रियामावरिपादया पुरुषस्य विद्वदः स्रार्कस्य महादेवस्य धीमहि पन्नारुद्रः प्रचोदयात् अत्पुरुषादि विद्हे महादेवादि धीमहि पन्नारुद्रप्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि कन्नानन्त्यप्रचोदयात् तत्पुरुषाय विद्महे तक्रतुण्डालधीमहि तन्नानन्द्यप्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नषण्मुखप्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नागरुडप्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्ना ब्रह्मप्रचोदयाय नारायणाय विद्महे वासुदेवाय धीमहे तन्नो विष्णप्रचोदयात् अज्रणखाय विद्महे तेष्णगाय धीमहि तन्नो नारदिकुम्भप्रचोदयात् भास्कराय विद्महे महद्वितिकलाय धीमहि तन्न आदित्यप्रचोदयात् ऐष्पालराय विद्महे लालीलाय धीमहि तन्ना अग्न्यप्रचोदयात् व्याजनानि विद्महे गण्यकुमारि धीमहे पन्नवदुर्ग्य प्रचोदया सहस्रपरमादेवी शतमूला शताङ्कुरा सर्वकम् हरतु मे पापन्तोर्वानु स्वप्ननाशनि काण्डाः काण्डात् प्रदोहन्ति परुढः परुडः परे एवानो दोर्भे प्रदनु नरहस्रेण शतेन तस्यात्य देवेऽत्तगे विधे महाविडावयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसाधारेष्यामि रक्ष्णस्वमादे पदे भूमिर्धेनुर्धरणी लोकधारिणी उद्धृता दिवरागेण कृष्णेन हत बाहुना मृत्यगे हनमे पापयन्मयादस्कतम् कदा मृत्यगे ब्रह्मदत्तादिकाश्रमेणाभिमन्त्रिता प्रत्यगे देहि मे पुष्टिन्वयि सर्वम् प्रदक्षितम् प्रत्यगे प्रदक्षिते सर्वम् तन्मेनके अजाहतेन पापेन कक्षाविपदमाङ्गलिम् हररिन्द्रभयामहे तदोराभयङ्के भगवन् शङ्पदन्दमोदने विद्वजो अनुमधो सत्यतालपत्रः अनुमधो मजे घृन्द्रपुरणे तुनस्त्वभयङ्करः स्वस्ति न इन्द्राद्धश्रवाः स्वस्ति न पूजा विश्वमेधाः स्वस्ति न काचे स्वस्ति नास्वधातु आपालप्रभर्मारिश्रिर्वागु सोमविश्वानि दधापनानिन्द्रम् पथिमानानि देवो ब्रह्मरि ज्ञानम् प्रथमम् पुनर्तात् मदस्वरितो स्य विष्लाश्वभवः सोनापतिभवानक्षदानिवेशने विच्छादशर्मदप्रधाः दम् तद्वारान्तुलाधल नित्यपुष्टान्कुरेषणे ईश्वरेकम् सर्वभूतानान्ता विहोपक्मने अश्रयम् श्रेर्मे भरदो अलक्ष्मेर्मे नश्यतो विष्णुमुखावे देवाश्चन्दोभिन् महागम्यन्त्रो वज्रपावश्रोणेदम् अयच्छद् मगवाकरोण हि ब्रह्मणस्पदे कक्षे मन्त्रय्यावधिरम् शरीर यज्ञतमरम् कुचेदम् तस्मिन्द्वेप्ते रणम् पवित्रम् विदरम् पुराणैनस्थल च दुष्कृतानि तेन पवित्रेण सिद्धेन भूतादिव आत्मानमलादिन्दरे वा सजोधाः स्वामृतः विद्वान् विश्वजो नः स्वमित्रा न तस्मै भूयात् विजोयम् च वयम् आपोहिष्टामजापस्तानोद्वेदधानेर्णानि चक्षसे यो वशिवदमोनतस्तस्य भाजे देहनः तस्मारङ्गमामभोयस्य क्षया आपोदनेतादलः हिरण्यशङ्गम् वरुणम् प्रपद्येति स्वम्मे दे विरायाजितः निर्मया भुक्तमसाधूनाम् पावेणभ्यश्च प्रतिग्रहः मनसा वाचा मयेन्द्राय नमो वरुणाय नमो वारुण्येन तदपगच्छतात् अध्यात् देपानात्यच्च उग्रात्मनिग्रहात् वरुणो राजा पाणि क्तोमुक्त नागस्य पृष्ठमानप्राप्त इमम् मे गङ्गे ये धनोकं सजदामृष्णोपया ऋत्यम् चाभेतोभ्यजालिता समुद्रालम् न मायतौषे सोन्दमसो धाता यथामसोऽ सुमहव्यागुमृजसमान्तरिक्षे वियोः पुरात्मकवर्षणः पुनन्त पुनातवरुणः पुरात्मकवर्षणः एष भूतस्य मध्ये भुवनस्य गोप्ता एष पुण्यकृतान् लोकानेश वृत्योदिरन्मयम् पृथिव्यादिश्रंसवः स नस्त्रगंसिराधे आर्द्रञ्ज्वल निर्ज्योतिरहमस्मि ज्योदक्षल निर्ब्रह्माहमस्मि याहमस्मिब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम् माञ्च अकार्यकार्यमणः गुरुदर्पकः वरुणोपामखवर्षिणस्तस्मापात्रमुच्यते प्रजाभूमित्वम् लोदयस्तप्रधेराः आक्रान्तमुद्रप्रथमे विधर्मन् जनयन् प्रजाभुवनस्य राजाः जातवेदेव निवेदः स्तनः परिजतदुर्गाय विश्वान अवयवसन्धुन्दत्यग्निः अग्निवन्नान्तर्गान् देवे गुशरणमहन्तम् पालयामस्मान् तस्तिभिदजतदुर्गाय विश्वा स्यन्त्यवन्मनसानिगौभय परमःताहारेव अधितभितात्यग्निः रत्नानिगमेभ्यरेण सदानव्ये स्वाञ्च वियस्वास्मभ्यम् चोभगमाविस्वभर्विष्टमहिषिक्तन्त रागस्य वृष्टमभिनमृतावेल् लोकलिहमारयन्ताम् भोरन्नमग्नेये पृथिव्ये स्वाहा भुवोऽन्नम् पाजवे अन्तरिक्षाय स्वाहा सुवरन्नमादित्यानि दिवे स्वाहा भोद्भुवः सुन्दमदेभ्य स्वाहा नमो देवेभ्यः भूद्भुवः सुवरन्नमा भोरग्नरे पृथिव्ये स्वाहा भुवो वायवेऽन्तरिक्षाय स्वाहा भुवरा नित्यादिवे स्वाहा भोद्भवस्तु वच्छन्द्रमदेक्ष्य स्वाहा नमो देवेभ्यस्पदा पृथुभ्यो भोद्भवस्तु वराग्नो भोरग्न दिव्ये च महतेज स्वाहा भो वायवे चान्तरिक्षाय महतेज स्वाहादित्यादिवेन महतेजस्वाहा चन्द्रमुख नक्षत्रेभ्यश्च दिग्भ्य महतेज स्वाहा नमो देवेभ्योद्भुवस्वहिनो अग्नरेण स्वाहा वाहिनो विश्ववेदय स्वाहा नित्यम् वायुभाव स्वाहा सर्वम् वाहिलः कदा स्वाहा वाहिनाव्यन्दाभ्यच्छन्दानस्याः पुरोभाजो इन्द्रेष्ठन्दवा ्रह्मणे धारणम् आकरणम् धारयिता भोजातम् कर्णयश्वमुष्यव श्रुतन्तवसत्यन्तपः श्रुतन्तपः श्रान्तबोधमस्तवशमस्तबोदानन्दवो यज्ञो भोद्भवः सुहद्ब्रह्मैतदुवा यथा वृक्षस्य दूरात् ग्रन्थो वात्येवम् पुण्यस्य कर्मणो दूरात् ग्रन्थो वा लेखितादिधानान् कर्त महितामह्यामे यद्यह वा निष्पयिष्यामि कर्तम् प्रदिष्यामित्येव मुतादात्मान जुगुप्से अनोरणीयान् महतो महीयान् आहत्मा गुहायान्निहितास्ति गन्धा समग्रतम् सप्त प्राणाय प्राणाः सप्त सप्ता अनश्च मुद्रा सर्वेच्छन्दवः सर्वरूपाः अदश्च विश्वावोढदयोः शयणे भूतस्तिष्ठत्यन्तरात्मा ब्रह्मादेवानाम् पदमेश्वनामिदवित्राणाम् महिलो मृगाणाम् शेणोरुत्रा नागश्वरिदर्मणा नागम् स्वाम पवित्रवत्ते दरे भन्ने अजामेकान् लोहितशुक्लकृष्णाम् बह्वीम् प्रजाम् जनयन् देतुम् स्वरूपाम् अजोर्केको विलमाणोऽनुसेतेनः भुक्तभो कामजो स्वाहागतम् विषपवक्ष्य हव्याम् समुद्रादोर्मगत्यञ्जरत्रिक्वाना मुदस्य नाभिः वयम् नाह प्रप्रभाज्ञेधार मानवाभिः उपब्रह्मादनवत्सत्यमानत्रयश्रृङ्गाभिः गौरवे चत्वारि शङ्गास्यमादात्महस्तादेवर्गुप्यमानङ्गविदेवन्वविन्दन् ष्टम् पश्चायमानकंसो देवया स्मत्याश्रञ्जो यस्मात् परन्नापरमस्मान्नाद्यायोगश्च नैलम् पूर्णम् मुरुणेन धर्मम् न कर्मणा न प्रजारधने न त्यागेनैकेन सत्त्वमानसुहे गुहायाम् विभ्राजलेण चेन्द्रविशन्ते वेदान्तज्ञानसुलक्षिता सन्न्यासयोगाद्ध ब्रह्मलोगेदुपराहन्तकाले पलामृता हरे मत्यन्द्रे रक्रम् विवाहम् परमेश्वभूततुण्डलेकम् पुनमध्यलग्रस्थम् अत्रापि लगनम् गगनम् विजोगस्तस्मिन् तदुपाग्रव्यम् यो वेदाजौ स्वर प्रोक्तो वेदान्ते च प्रदक्षितः तस्य प्रगदलेन स महेश्वरः सहसीरिणम् देवम् विश्वक्षम् विश्वजम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् पदम् विश्वनपरमहा नियत्यम् विश्वन्नारायणगम्भरिम् विश्वमेवेदम् पुरुढस्तद्विष्टमुपदे मेश्वरम् शाश्वतकम् श्रीमञ्चुलम् नारायणम् महाज्ञैनम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायण परः नारायणपरम् ब्रह्मदत्तम् नारायणः परः नारायणपरो ध्याता ध्यानम् नारायण परः अनन्तरपभेतर सर्वम् व्याप्य नारायणश्चिलः अनन्तमव्ययम् कविकुम् समग्रेभुरम् तर्जगो दत्पदे काचकम् हृदयम् जाप्लोकम् आभ्यामुखनिष्ठते ज्वालबालागुलम् भाति विश्वस्यामिदनम् पठति शन्दनम् शिलाभिश्चलम् प्रत्यागोषसन्निभम् तस्यान्ते दृशनम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्भयम् देहमापार्दनमस्तकः तस्य मध्ये वन्यजिखातः या मध्ये परमात्मा गणस्थितः ब्रह्मसतिवस्व यस्तेन्द्रोक्रमस्मान् दित्योडले मण्डलम् तव निदालस्तमण्डलकम् लोको भगेण एतस्मिन् मण्डलेतानि रामानि सदा लोकोधरवेडलेडस्मिन् मण्डले चिपुरुषस्तारेलोगम् त्रेजलानि लोकश्रेधात्रयविद्याम् तदादित्यैरन्मयः पुरुषः आदित्य वीरे जगोजोपलन्यध्यक्षुश्रोत्रमात्मान्यर्मन्तोकर्म जम्भ ब्रह्मैतरमुदलेश पुरुषेष् भूतानामनिर्ब्रह्मणः सायुज्यगम् स लोकतामनाप्नो एतासामेव देवतानागुसायुज्यगम् दाक्षिदागम् समानलोकता महाप्नोदम् त्युपनिषत् निधनपदय नमः निधनपदान्त्रिकाय नमः ओद्धाय नमः ओद्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वायणः सर्वलिङ्गायनः शिवाय नः शिवलिङ्गाय नः ज्वलायनः ज्वलिङ्गायनः आत्माय नः आत्मलिङ्गायनः परमायणः परमलिङ्गाय नः एतत्सोमस्य तोर्यस्य सर्वलिङ्गज्ञ स्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो नमो नमः भवे भवे भवे भव स्वभाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः नमो रुद्राय नमः कालाय नमो बलविकर्णाय नमो बलाय नमो बलप्रभसनाय नमः सर्वभूतमाय नमो बलान्मनाय नमः अघोरेभ्यो नघोरेभ्यो घोरघोरभ्यः सर्वेभ्यः सर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः सत्पुरुषाय विद्महे महादेवाय धीमहि कन्नारुद्रप्रचोगया च ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपजर्ब्रह्मणोऽधिपजर्ब्रह्मा शिवा मे अस्तु सदा शिवा नमो हिरण्यवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपदयम्पदये पशुपदये नमो नमः लघुम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् और्ध्वरेगम् विलोभाक्षम् विश्वरूपाय वै नमो नमः सर्वभैरुद्रश्चस्मै रुद्राय नमोऽस्तु पुरुषो वैरुद्रः सन्महो नमो नमः विष्णम् भुवतम् भुवनम् चित्रम् वा बहुधायमानम् जगते सर्वाख्यैरुद्रस्तस्मै हृद्राजनमास्तु कर्तृद्राय प्रजेतसे दृष्टमाय वसन्तमगुहते सर्वाख्यैरुद्रस्तस्मै हृद्राजनमास्तु यस्य वैकम् गत्यग्निहात्रहवणी भवत्तेव साहुदयश्चन्त्यसा प्रतिष्ठित्यै ृक्षपालिवम् च अति यद्देवागन्धर्वा मनश्या विघुनासुरास्तेजागम् सर्वभूतानाम् माता मेदिनी महता महेदा मित्रे गायत्री जगत् दुर्वे वृद्धे बहुला विश्वा भूता कदमाकाया सा सत्ये क्षमतेति आपो वा इदगुम् सर्वम् विश्वा भूता न्यावः प्राणादावचवावोन्नमाव नः सम्राणाव विराणाव स्वराणावश्चन्दायस्याज्योगे गश्यावो विजोगश्यावः सत्यवापः सर्वादेवस्वराभव आपः पुनन्द पृथिवेयम् पृथिवे भूता पुनातुमाम् पुनन्द ब्रह्मणः योच्छष्टमभाजन्यत्वा दुस्तरितम् मम सर्वम् पुनन्पोताम् च परिग्रहग्रस्वाहा अर्गश्च मामन्यष्टमन्यपदश्च मन्यगतेभ्यो रक्षन्ताम् पापमकालिषम् मनसावाचा हस्ताभ्याम् अभ्यामुदरेण हिष्टा आहस्तदवलम्बतो यत्किञ्चिदविदम् मये इदमहम् वामतयोनौ सौर्ये ज्योतिजुहाविस्वाह सूर्यश्च महामन्यश्च मन्यवदनश्च मन्यकृतेभ्यः आदेभ्यो रक्षन्तापापमकारिषम् मनसामाजाहस्ताभ्याम् पद्भ्यामुदरेण शिश्नवम्पसो यत्किञ्चिदृदम् वयीत् इदमहम् मामुदयोनौ स्वाहा ओमित्यैवाक्षरम् ब्रह्म अग्निर्देवता ब्रह्म इत्यारिढम् गायत्रम् छन्दम् परमात्मम् स्वरूपम् सायुज्यम् विनियोगम् आयादुवरदा देवी अक्षरम् ब्रह्म संविदम् गायत्रे छन्ददाम् मादेशम् ब्रह्मरुढस्व मे यगन्धात् कुरुते पापम् तन्धा दृश्यते यद्रादु पापं तदाया पति मुच्यते महादेवी सन्ध्या विदस्पति भवति परमनिर्भ्राजावानान्धामनामाय विश्वमज विश्वाय सर्वमज धर्वाय त्रिभोराङ्गायत्रे मावाहयामि गावित्रे मावाहयामि चनस्पते मावाहयामि चन्दरे नावाहयामि श्रियमावाहयामि गायत्र्या गायत्रियच्छन्दा विश्वामित्रविः सविता देवदाज्ञमुखम् ब्रह्माचरो विट्ररभृदयम्खा पृथिवीजाय प्राणावाहनव्यानोदान ुम ओम् जनः ओम् तपः ओम् सत्यम् ओम् तत्सपितुर्वरेण्यम् भग्वो देवस्य धीमहि ोधीरसौकृ उत्तमे शिकरे जाते भूम्याम् पर्वतमूर्धने ब्राह्मणेभ्यो ज्ञाता गच्छदेव यथा सुखम् स्तुता मया वरदा वेदमाता प्रचोदयन्ति पवने जाता आयुः पृथिव्याम् द्रविणम् ब्रह्मवर्तनम् वैक्यम् दत्त्वा प्रजातम् ब्रह्मलोकम् ौर्यादित्यप्रभावात्यक्षरम् मधुक्षरम् सत्यम् वेदेव मधुमे तुमाम् ब्रह्ममेव मधुमे तुमाम् यास्ते सोम प्रजावत्सोऽभिसोऽहम् दुष्मप्नहन्तः यास्ते सोम प्राणागस्ताञ्जहोमि कृतुवर्णमयाजम् ब्राह्मणाय दध्याय ब्रह्महत्याम् वा एते घ्नन्ति हे ब्राह्मणा कृतुकर्णम् प्रथन्ति ते सोमम् प्राप्नुवन्ति आसहसात्पन्दिम् पुनन्ते ओ ब्रह्ममेधया मधुमेधयाः ब्रह्ममेव मधुमेधयाः अद्यानो देवसविरः प्रजावत्सामे सौभगम् परादृष्टप्रियगुन्धुवा विश्वानिदेव यद्भर्दन्तन्मासुवा मधुवातारितायते मसुक्षरम् निसिन्धवः माधेन्नः सन्तोषधेः मसुरक्तमुदोषमसु मत्पाच्यमगुम्रजः द्यौरस्वनः पिता मधुमान्मावनस्वधुमागम्मस्तुर्यः माधेर्गा वा भवन्तु मुझ� नः नैवम् त्रयाचिरम् ब्राह्मणाय दद्याय भ्रूणहत्याम् वा नेजे घ्नन्ति पठन्ति ते धामम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ते ओ ब्रह्ममेधवाः वसुमेधवाः ब्रह्ममेव मसुमेधवाः ब्रह्मा देवानाम् पदवेणाम्बिक्तानाम्भृगानाम् शेणो नागस्वर्मे बृहद विजयर्ता विजयर्तान्तु धरितो अन्तर्गता मनसा पूयमानाः धृतस्य धारा अभिजागे मे हिरण्यजो वेदसो मध्यादा तस्मिन् सुपर्णो मधुगत्कुलाय भजन्नास्ते मधुदेवताभ्यः तस्यादयः सप्तदीरे स्था स्वधाम् दुहानाभुतस्य धाराः य इदन्ति सुपन्नमया ब्राह्मणाय दद्यात् वीरहत्याम्बा एते घ्नन्ते ्राह्मणा चतुवर्णम् पठन्ते हे सोमम् प्राप्नुवन्ति आ सहस्रात् पङ्क्तिम् पुनन्ते ओ मेधादेवे विधमानाला विश्वाजे भद्रा तु मनस्यमाला प्रजा यत्ता दुरक्ता गृहकृतदेव विदशीरः तया यत्रश्चित्रम् इन्द्रेव ददानो यद्वीणा न मेधे मेधाम् महिन्द्रा ददातु मेधाम् देवी धनस्पती मेधाम् मे अश्विनाभावः सत्ताम् पुष्करस्रजा अप्सरा तु तया मेधागन् सर्वेणु नयन्मनः दैवेयम् आमाहम् मेधातुलभिर्विश्वपाभिरन्यवर्नाजगतीजगम्या ओर्जस्व देवैता विन्ममानाथामाहम् मेधातु प्रतीका विषन्ता मयि मेधाम् मयि प्रजाम् मयि यज्ञस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयिन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् पन्नम् वनस्पतेनशीलामुदयस्य च देवुष्पदे सन्वयते ब्रवीमानः प्रजागम्मोदवीराय वादम् राणम् वनसान्वारभामहे प्रजापरि ज्ञवनस्य गोपाः सदा मत्यास्त्रायताम् पात्रमोहदा च अमुत्रभो यातजयद्यमस्य बृहस्पदे अभिजस्तैरपुञ्जः प्रत्यो हतामुश्लिनामुत्यमस्माद्देवानाभग्नेभिषजासनेभिः हरिणं हरम् तमुयन्त्यश्वस्तेजामे माघादयनम् दे मार्गे विक्रमस्व शङ्केरङ्गमिन्धानभो लोकवसने महम् लोकयोगविद्वाजमत्यन्तराम्यहम् माचि लो मत्य मामधेयन्नामेवनम् मृतमाधेः प्रजान् मामे नैर्गनिचङ्ग